श्रीहरये नमः अथ द्वाविंशोऽध्यायः उद्धव उवाच कति तत्त्वानि विश्वेशसङ्ख्यातानि ऋषिभिः प्रभो नवैकादश पञ्च त्रीण्याथ त्वमिह शुश्रुम प्राहुरपरे पञ्चविंशतिं सप्तैके नव षट् केचिच्चत्वारिकादश परे केचित् सप्तदश के के के प्राहुषोडशैके त्रयोदश एतावत्त्वं हि सङ्ख्यानां ऋषयो यद्विवक्षय गायन्ति पृथक्कायुष्मन् इदं नो वक्तुमर्हसे युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणायथा मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटं नैतदेवं यथा यतःहं वच्मि तत्तथा एवं विवदतां हेत्वं संक्त्यो मे यासाम् यासां यदि काराधासित्विकल्पो वदतां पदं प्राप्ते समदमेऽप्ये देवाधस्तम् अनुसाम्यति परस्परानुप्रवेशात् तत्त्वानांर्षप पौर्वापर्यप्रसङ्ख्यानां यथा वक्तुर्विवक्षितम् एकस्मिन्नपि दृश्यन्ते प्रविष्टानितराणि च पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वसहा पौर्वापर्यमतोमीषां प्रसङ्ख्या न मयि भीप्सतां यथा विविक्तं यद्वक्त्रं अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनं श्वेतो न सम्भवा धान्स्यस्तत्त्वज्ञोज्ञानदो भवेत् पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपीम् तदन्यकल्पना पार्थ ज्ञानं च प्रकृतिर्गुणः प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणाः सत्त्वं रजस्तमय इति स्थित्योत्पत्यन्त हेतवः सत्त्वं ज्ञानं रजः कर्मतमो ज्ञानामि होच्यते न व्यतिकरकालस्वभावसूत्रमेव ज्योतिरापक्षितिरिति तत्त्वान्युक्तानि मेन व श्रोत्रं त्वक् दर्शनं घ्राणा जिवेति ज्ञानशक्त्यः वाक्पाण्युपस्तपायभङ्ग्रे कर्माण्यङ्गोपयं मनः शब्दस्पर्शो रसो गन्तो रूपं चेत्यर्थजायतः गत्युक्त्युत्सर्गशिल्पाणि कर्मायतनसिद्धयः सार्घातौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी गुणैर्धत्ते पुरुषो व्यक्त ईशते व्यक्ताधयो विकुर्वाणा तवः पुरुषे क्षया लब्धवीर्या सृजद्य संहता प्रकृतेर्भत् सप्तैव षडित्यत्रापि भूतानि पञ्चषष्ठः परः पुमान् तैर्युक्त आत्मसम्भूते सृष्ट्वेदं चत्वार्ये वेति तत्रापि तेज आपोन्नमात्मनः जातानि तैरिदं जातं जन्मा वयविनः सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च पञ्च पंचा पञ्चैकमनसा आत्मा सप्तदश स्मृतः तद्वत् षोटसङ्ख्याने आत्मैव मन उच्यते भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश एकादशत्वात्मासौ महाबुधेन्द्रियाणि च अष्टौ प्रकृतयश्चैव पुरुषश्च न वेत्यथ इति नानाप्रसङ्ख्यानां तत्त्वानां ऋषिभिः कृतं सर्वं न्याय्यं युक्तिमत्वात् विदुषान् किमशोभनम् प्रकृतिपुरुषश्चोभौ यत् यव्यात्मविलक्षणो अन्योन्यापाश्रयात्कृष्ण दृश्यते न वितातयोः प्रकृतौ लक्षते ह्यात्मा प्रकृतिश्च ततात्मनि एवं मे पुण्डरीकाक्षमहान्तं संशयं हृते हृदि चेतुमर्कसि सर्वज्ञवचोभिर्नयनैः पुणै ह्ये त्वत्तो ज्ञानं हि जीवानां प्रमोशस्त्यत्र शक्तितः त्वमेव ह्यात्मायया गतिं वेतनजाभरः श्रीभगवानुवाच प्रकृते पुरुषश्चेति विकल्पपुरुषर्षभा एष वैकारिकसर्गो ममाङ्गमाया गुणमय्यने गता विकल्पबुद्धिश्च गुणैर्विधत्ते वैकारिकस्त्रिविधोऽध्यात्ममेकम् अधाति दैवमधिभूतमन्य दृक् रूपमार्गं वपुत्ररन्त्रे परस्परं सिद्ध्यति यश्वध्ये आत्माय तेषामपरो य आध्यक् स्वयानुभूत्या किल सिद्धसिद्धिः एवन्द्वकादिश्रवणादि चक्षुर्जिह्वादिनाशादि चित्तयुक्तं योऽसौ गुणशोभगृतो विकारः प्राधानमूलान्मखतः प्रसूतः अहं त्रिव अहं त्रिवृन्मोकविकल्पहेतोर्वैकारिकस्तामस ऐन्द्रियश्च आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीतिभिधार्थनिष्ठः व्यर्थोऽपि नैवो परमे पुंसां मत्तःपरावृत्त धियां स्वलोकात् उद्धवो उवाच त्वत्तः परावृद्धति यः कर्मभिः प्रभो उच्चावचान्यता देहान् गृह्णन्ति विसृजन्ति च तन्ममाक्याकि हि गोविन्ददुर्विभाव्यम् अनात्मभिः न ह्येतत्प्रायशो लोके विद्वांसः सन्निवञ्चिताः श्रीभगवानुवाच मनःकर्ममयं नृणाम् इन्द्रियै पञ्चभिर्युतं लोकाल्लोकं प्रयात्यन्य आत्मा तदनुवर्तते ध्यायन्मनोनुविषयान् दृष्टान् वानुश्रुता नथ उद्यत्सि तत्कर्मतन्त्रं स्मृतिस्तदनुसाम्यति विषयाभिनिवेशेननात्मानं यत् स्मरेत् पुनः अन्तोर्वै कस्यचित् हेतोर्मृत्युरन्त्यविस्मृतिः जन्मत्वात्मतया पुंसः सर्वभावेन भूरिदा विषयस्वीकृतिं प्राहुर्यत स्वप्नमनोरथः स्वप्नं मनोरथं चेत्तं प्राक्तनं न स्मरत्यसौ तत्र पूर्वमिवात्मानमपूर्वं चानुपश्यति इन्द्रियायनसृष् त्रैविध्यं भाति वस्तुने बहिरन्तर्भिता हेतोर्जनो सञ्जनकृद्यत निद्यता ह्यङ्गभूतानि भवन्ति न भवन्ति च कालेन आलक्ष्यवेगेन क्षुत्मद्वा तन्न दृश्यते सूक्ष्मद्वा तन्न दृश्यते यथार्चिषां स्रोतसां च फलानां तथैव सर्वभूतानां वयोक्वस्थाधयकृताः सोऽयं दीपोर्चिषां तदिदं जलं सोख्यं पुमानि तिनृणामृषा कीर्तिर्मृषायुषां मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान् म्रियते वामरो भ्रान्त्या यदाग्निर्दारुसंयुतः निषेकगर्भजन्मानि बाल्यकौमारयौवनं वयो मद्यं जरा Ye to manara tamagir, Hyangyas yo chava chasta noho, गुण गुणसा उपाधत्ते क्वचि कच्चिजाति आत्म पितृपुत्र अनुमेय भवाप्ययो न भवाप्यय वस्तूनावयलक्षण तबीच विपागाभ्यान्म संयम तीलक्षण द्रष्टाव द्रष्टा तनोपृक् प्रकृतेरेवमात्मानम् अविविच्याभूतः पुमान् तत्त्वेन स्पर्शसम्मोढ संसारं प्रतिबध्यते सत्त्वसङ्घातृषीन् देवान् रजसासुरमानुषान् तमसा भ्रामितो याति कर्मभिः नृत्यतो गाय एवं बुद्धिगुणान् पश्यन्न न नीकोऽप्योऽनुकार्यते या तम्बशा प्रचलता तरवोऽपि चला इव चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः यथा मनोरथधियो विषयानुभवो मृषा स्वप्नदृष्टाश्च दासार्ह तथा संसार आत्मनः अर्थेह्य विद्यमानेऽपि संश्रुतिर्न निवर्तते ध्यायतो विषयानस्य स्वप्नेर्ता गमो यत तस्मात् उद्धवमापुङ्क्ष्व विषयान् असदिन्द्रियैः आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमं क्षिप्तोऽवमानितो सद्भिः प्रलब्धोऽ चूयितो तव ताडितः सन्निबद्धो वा वृत्तया वा परिहापितः निष्ठितो मूत्रितो प्रकंपितः प्रकम्पितः श्रियः कामकृश्रगद आत्मानात्मानमुत्तरेद् उद्धवो उवाच यथैवमनुबुद्धेयं वधनो वधताम्बर सुतुस्सहमिमं मन्ये आत्मनि असदति विदुषामभिविश्वात्मन् प्रकृतिर्हि बलीयसी ऋते त्वद्धर्मनिरतान् सान्तान्स्ते शरणालयान् इति श्रीमद्भगवते महापुराणे एकादशस्कन्ते द्वाविंशोऽध्यायान् सर्वत्र गोपिका जीवनस्मरणम् गोविंद गोविंद सदगुरुनाथ महराज के जय